हरि ओम् श्री सीतारामचन्द्राध्य नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे नवाधिकशतम सर्गः विलापः श्रीरामेण तस्य प्रबोधनपूर्वकम् रावणान्त्येष्टि सर्ग संस्कारार्थम् तम् पत्यादेशदानम् भ्रातरम् नियतम् दृष्ट्वा शयानम् निर्जितम् ऋणे विललाप विभीषणः वीरविक्रान्तविख्यात प्रवीण नयकोविद मार्हषोपेत किं चेशे नियतो भुवि निक्षिप्य दीर्घो निश्चेष्टौ मुकुटेना पवृतेन, मुकुटेनापवृत्तेन भास्कराकारवर्चसा तदिदं वीरसम्प्राप्तम् यन्मया पूर्वमीरितं काममोहपरितस्य यत्तन्न रुचितं तव यन्न दर्पात् प्रस्तो वा नेन्द्रजिन्नापरे जनः न ने कुम्भकर्णोतिरथो नातिकायो न रातकः न स्वयं बहु मन्येथ तस्यो नर्कोऽयमागतः गतः सेतु सुनीतानां गर्म सीग्रह ग संक्षेप सुहसान आदि पति भूमौ मग्न तम श्री चंद्र चित्र भानो प्रशातर्ची व्यवसाय निरुद्यम अस्पति वीरे भूमो शस्त्र भृतांबरे की शेषमक गतशतश्च सम्प्रति रणे राक्षसजार्दूले प्रसुप्त इव पाशुषु धृतिप्रवाल प्रसभाग्र्यभाग्र पुष्प तपो बल शौर्य निबद्ध मूल रणे महान् द्राक्षस राजवृक्ष सम्मार्जितो राघव मारुतेन तेजो विषाण कोपप्रसाद परगात्र हस्त इक्ष्वाकुसिंह वरिगृहीत देह सुप्तक्षितो रावणगन्ध हस्ते पराक्रमोत्साह विजृम्बितासि निश्वास धूम स्वबल प्रताप प्रतापवान् संयति राज्ञ निर्वापितो रामपयोधरेण सिंहक्षालाङ्गुलक उद्विषाण पराभिजि नन्दन गन्धवः रक्षौऋय फलकर्ण चक्षु क्षितीश्वर व्याघ्रतो वसन्न वदन्तं हेतुमद्वाक्यं परिदृष्टार्थ निश्चयं इत्युवाच विभीषणम् नयं विनष्टो निश्चेत् समरे चण्डविक्रमः अत्युन्नतमहोत्सवः पतितोऽयम् अशङ्कितः नैव नैवं विनष्टाः शोचन्ते क्षत्रधर्म व्यवस्थिताः वृद्धिमाशन्तमानाय निपतन्ति रणजिरे येन सेन्द्रास्त्रयो लोका प्रासिता युधिमतः तस्मिन् कालसमायुक्ते न काले परिशोचितुम् नैकान्त विजयो युद्धे भूतपूर्वे कदाचिन परैर्वा हन्यते वीर परान्वा हन्ति संयोगे इयं हि पूर्वै सन्दिष्टा गतिक्षत्रियसम्मतः क्षत्रियो निहतसङ्ख्ये न शोच्य इति निश्चयः तदेवं निश्चयम् दृष्ट्वा सप्तमासाय विद्वरह यदि अनन्तरम् कार्यम् कल्प्यं तदनुचिन्तय तम् उक्तवाक्यम् विक्रान्तम् राजपुत्रम् विभीषणः उवाच शोकसन्तप्तु न्तरं योयं विमर्देष्व विभग्न पूर्व सुरे समस्तै अपि वासवेन भवन्तमासा जरणे विभग्न वेलमि वा सा यथा अनेन दत्तानि वीपतेषु भुक्ता च भोगा निभृता च भृत्या धनानि मित्रेषु समर्पितानि वैरण्यमित्रेषु च यापितानि एषो हिताग्नि च महात्पा च वेदन्तर एतस्य यत् प्रेतगतस्य कृत्यं तत् ससस्य तव प्रसादात् स तस्य वाक्ये आज्ञापयामास नरेन्द्र सूनो स्वर्गीय माधा नीमदीनत्वराणि निवृत्तं न प्रयोजनं क्रियताम् अस्य संस्कारो ममा क्लेश यथा तव इत्यार्थे श्रीमद् रामायणे वाल्मीकि अधिकारीयुद्धखण्डे नवाधिकशत संसर्ग श्रीसीतारामचन्द्र अर्पणमस्तु